नारदपुराणम् उत्तरार्थं अध्यायं 61 वन् वसुरुवाच एवं तदा विधिसुते कृष्णं रामेण सङ्गतं सुभद्रां च महाभागाः सांस्तुवन्ति मुदान्विताः देवा ऊचुः जय जय लोकपाल जय पद्मनाभ भूधरणा जय जय चादिदेव बहुकारणा जय जय वासुदेव जय सच्चरण सत्करण जय जय दिव्यमीन जय स्त्री दश वर जय जय जलधिषयन जय जय योगेश जय देवधरा जय जय विश्वमूर्ते जय चक्रधरा जय जय भूतनाथ जय श्रीनिवास जय जय योगीवर जय जय सूर्यनेत्र जय देव वराह जय जय कैडभारे जय जय वेदवर जय जय कूर्मरूप जय यज्ञवर जय जय कमलनाभ जय शैलधर जय जय योगेश जय वेगधर जय जय विश्वमूर्ते जय चक्रधर जय जय भूतनाथ जय धरणीधर जय जय शेषशायि जय पीतवास जय सोमकान्द जय योगवास जय जय दहनचक्र जय धर्मवास जय जय गुणनिधान जय श्रीनिवास जय जय सुखनिवास जय जय जय जय मदिनिवास जय जय गहनगेहनिवास जय मखनिवास जय जय वेद वेद्य जय किं चिन्त्य जय पुष्टिकर जय जय ज्ञानमूर्ते जय कमलाकर जय जय भाववेद्य जय मुक्तिकर जय विमल देह जय जय सत्त्वनिलय जय जय गुणसमूह जय जय यज्ञकर जय जय गुणविहीन जय जय मोक्षकर जय जय भूहिरण्य जय जय कान्धियुध जय लोकशरण जय जय लक्ष्मीपदे जय पङ्कजाक्ष जय जय सृष्टिकर जय योगयुध जया ती कुसुमश्यामदेह जय जय समुद्राविष्टदेक जय लक्ष्मी पङ्कज भोगदेक जय जय भक्तिभावन लोकगेय जय लोककान्त जय परमशान्द जय जय परमसार जय चक्रधर जय भोगियुद, जय नीलाम्बर जय साङ्ख्यनुद जय कलुषभर जय कृष्ण जगन्नाथ जय सङ्घर्षणानुज जय जय पद्मफलाशाक्ष जय वाञ्छितफलप्रद जय माला वृतो रस्क जय चक्र गदाथर जय पद्मालयाकान्द जय विष्णो नमोऽस्तु दे स्तुत्वा तदा देवाशक्राद्या दृष्टमानसाः सिद्धचारणगन्धर्वा ये चान्ये स्वर्गवासिनः दृष्ट्वा स्तुत्वा नमस्कृत्य तद् गदेनान्दरात्मना कृष्णं रामं सुभद्रां च यान्धिस्वं स्वं निवेशनं कपिला शतदानेन पुष्करे स्मृतं तद्फलं कृष्णमालोक्य मञ्चस्थं सहलायुधं कन्या शतप्रदानेन यद्भलं समुदाकृतं कृष्णमालोक्य मञ्चलत् लभदे नरः शतनिष्कसुवर्णेन भूमिदानेन यद्फलं तद्फलं चान्नदानेन सर्वातिथ्येन यद्फलं वृक्षोत्सर्गेण विधिवद्ग्रीष्मे तोयप्रदानदः तिलधेनुप्रदानेन गजाश्वरथदानदः छान्द्रायणेन चीर्णेन तथा मासोपवासदः यद्भलं सर्वतीर्थे शुभ्रतैर्दानैश्च यद्भलं स सुभद्रौ रामकृष्णौ तल्लभेद्वीक्ष्य मञ्चगौ तस्मान्नरोधवा नारी पश्येत् पुरुषोत्तमम् स्नानशेषेण कृष्णस्य तोयेन यदि मोहिनि वन्ध्या मृतप्रजा वापि दुर्भगाग्रहपीडिताः राक्षसाध्यैर्गुहीता वा तथा रोगैश्च संहताः सद्यस्ताशुद्धिमायान्तिविधिना ह्यभिषेचिताः प्राप्नुं वीति सितान् कामान्यान्यान्वां चन्ति सुप्रभे पुण्यानि यानि तोयानि सन्त्यन्यानि यान तो धरातले तानि स्नादावशेषस्य कलां नार्हन्ति षोडशीं तस्मात् स्नानावशेषेण जलेन जलशायिनः अभ्युक्षेत् सर्वगात्राणि सर्वकामप्रदेन च नादम् पश्यन्ति ये कृष्णम् व्रजं तम् दक्षिणामुखम् ब्रह्महत्या दिभि पापेर्मुच्यन्ते तेन संशयः शास्त्रेषु यत्कलम् प्रोक्तम् त्रिप्रदक्षिणया भुवः दृष्ट्वा नरो लभेत् कृष्णं तत्फल दक्षिणामुखम् तीर्थयात्राफलं यत्तु पृथिव्याम् समुदासदम् दृष्ट् यांदम लभेष्ण तलम दक्षिणा मुखं गंगा चुब्जाने कुरुक्षेत्रेर्कपर्वणी पुष्कदिषु चाषु यमृतम यदल दक्षिणा सें तो कृष्णम यांदमश्य अत किं बहुनोक्न यफल पुण्यकर्म वेदशास्त्रपुराणु भार संता तद्बलं वीक्ष्य दक्षस्यौ सुभद्रौ बलकेशवं गुण्डिचामण्डपं यान्तं ये पश्यन्ति रथे स्थितं सभद्रं सबलं कृष्णं ते यान्ति भवनं हरेः गुण्डिचायानसमये फाल्गुन्यां विशुवे तथा सकृद्यात्रां नर कृत्वा विष्णुलोकं प्रगच्छति यावधि कुरुदे मर्त्यो यात्रा श्रीपुरुषोत्तमे तावत् कल्पं विष्णुलोके वसेदिति विनिश्चयः यात्रा द्वादशसम्पूर्णा यदा स्योर्विधिनं दिनि तदा प्रदिष्टां गुर्वेदविधिना पापनाशिनि ज्येष्ठमासिषिदे पक्षे एकादश्यां समाहितः गत्वा जदाशयं पुण्यमाचम्यप्रयतश्रुचिः आवाह्य सर्वतीर्थानि ध्यात्वा नारायणम् तथा तदस्नानं प्रकुर्विधविधिबोधितवर्त्मना स्नात्वा सम्यक्ततो देवान् ऋषींश्चापि पितॄन् स्वकान् सन्तर्पयेत् तथान्यांश्च नाम गोत्रोक्तिपूर्वकम् उत्तीज्य वासी धौदे नर्मले परिधाय च उपस्पृश्य विधानेन तथोपकस्थाय भास्करम् वेदमादरमावर्त्य पुण्यमष्टोत्तरं शतं सौरमन्त्र्यांस्तथा चान्यां स्त्रिः परीत्य न मे द्रविं वेदोक्तम् स्नानं जप्यमुदाहृतम् स्त्रीशूद्रयोर्वररोहे वेदोक्तविधिवर्जितं तदो व्रजेन्मन्दिरस्थं भक्त्या श्रीपुरुषोत्तमं प्रक्षाल्यभस्तौ पादौ च उपस्पृश्य यथाविधिकृदेन देवं क्षीरेण तदनन्तरं मधुगन्धोदकेनापि तीर्थचन्दनवारिणां तदो वस्त्रयुगं श्रेष्ठं भक्त्यादम् परिथापयेद चन्दना गुरुकर्पूरैः कुङ्कुमेन विलेपयेद् पूजयेत् परया भक्त्या पद्मैश्च पुरुषोत्तमं सम्पूज्यैवं जगन्नाथं भुक्ति मुक्तिप्रदं हरिं धूपं चागुरुसंयुक्तं देहे देवस्य चाग्रदः गुकुलं च चा सुनिष्पूतं दहे दूत समन्वितं दीपम् प्रज्वालयेद्भ्र्या यथाशक्ति कृतेन वै अधश्च दीपकान् दद्या द्वादर्शैव समाहितः गोकृतेन तु देवेशि तिलतैलेन वा पुनः नैवेद्यं पयसा पूप शष्कुली वेडकानि च मोदकं पाणिकं चान्यद्फलानि च निवेदयेद एवं पञ्चोपचार्येण सम्पूज्य पुरुषोत्तमम् ॐ नमः पुरुषोत्तमायेधि जपे दष्टोत्तरं शतं तदप्रसाद यद्देवं दण्डवत् प्रणिपत्य च चा। तदोच्चरेद्गुरुं भत्या पुष्पवस्त्रानुलेपनैः नानयोरन्तरं यस्माद्विद्यते दे विधिर्नन्दिनी देवस्योपरि गुर्वीदमण्डपम् सुसमाहितः नानापुष्पैः विषदं विचित्रं मण्डलं पुरः कृत्वावधारणं पश्चाज्जागरं कारयन्निशि कथां च वासुदेवस्य गीतिकां चापि कार्येद ध्यायन् पठन् स्तुवन् देवं प्रणये द्रजनीम्बुधः तथ प्रभादे विमले द्वादश्यां द्वादशैवधो निमन्त्रयेत् व्रद स्नादान् ब्रह्मणान् वेदपारगान् इतिहासपुराणान् इतिहासपुराणज्ञान् चोत्रियान् स्नात्वा सम्यग्विधानेन धौधवासादिदेन्द्रियः स्नापये पूर्ववद्भक्त्या तत्रस्तम् पुरुषोत्तमम् गन्धै पुष्पै स्तोपहारै नैवेद्यैर्पितैस्तथा उपचारैर्बहुविधैः प्रणिपादै प्रदक्षिणैः जाप्यस्तुतिनमस्कारैर्गीतवाद्यैर्मनोहरैः सम्भूज्यैवं जगन्नाथं ब्राह्मणान् पूजयेत्तदः द्वादशैव दुर्घास्तेभ्यो दत्त्वा कनकमेव चत्रोपानद्युगं चार्प्य कांस्यपात्रं च भक्रितः तदस्तान् भोजयेद्विप्रान् भोज्य स्वपूर्वकम् पक्वान्नं भक्ष्यभोज्यं च सगुडं शर्करान्विदं ततो भुक्त्वा सुस्सं तृप्तान् ब्राह्मणान् सुस्तमानसान् द्वाद सैवोदकुम्भश्चग्राहयेत्तान् समोदकान् दक्षिणां च यथाशक्तिविष्णुतुल्यं विजिञ्चिज्येन् सुवर्णवस्त्र गोथान्यैर्द्रव्यैष्ठान्यैर्वरैर्बुधः सम्भूज्य तान् नमस्कृत्य इमं मन्त्रमुदीर्येद सर्वव्यापि जगन्नाथशङ्कचक्रगदाधरः अनादिनिधनो देवप्रियदाम् पुरुषोत्तमः इत्युच्चार्य ततो विप्रां स्त्रिः परिक्रम्य सादरम् प्रणम्य शिरः स भक्त्या सा चार्यां स्तान्विसर्जयेत् ततस्तान् ब्राह्मणान् भक्त्या चासीमान्दमनुव्रजेद अनुव्रज्य तान्विप्रान् नमस्कृत्य निवर्त्यज बान्धवैस्वजनैर्युकृतस्ततो भुञ्जीतवाग्यदः एवं कृत्वा नरः सम्यग् नारीवालफले फलम् अश्वमेधसहस्रस्य राजसूयशतस्य च अधीतं शतमुद्धृत्य पुरुषाणाम् नरोत्तमः भविष्यच्च शतं देवि दिव्यरूपधरो व्ययः सर्वलक्षणसम्पन्नसर्वालङ्कारभूषितः सर्वदामसमृद्धात्मा गुणरूपवयोऽन्वितः स्तूयमानोध गन्धर्वैरप्सरोभिः समन्ददः विमानेनार्कवर्णेन कामगेन स्थिरेण च पताकध्वजयुक्तेन शत सूर्यप्रभेण च उद्योतयन् दिशसर्वा आकाशे विगतक्रमः युवा महाबलो धीमान् विष्णुलोकं स गच्छति तत्र कल्पशतं यावद्भुङ्क्ते भोगान्यथेप्सितान् स्तुतो मुनिवरैर्देवि तिष्ठेश्च विगतज्वरः यथा देवो जगन्नाथशङ्खचक्रगदाधरः तथा सौ मुदितो देवि धृत्वा रूपं चतुर्भुजं भुक्त्वा तत्र वरान् भोगान् क्रीडित्वा सुचिरं सदि तदन्ते ब्रह्मसदनमायात्यखिलतामदं सिद्धविद्याधरैश्चाभिशोभितं सुरभिन्नरैः कलं नवधिकल्पं तु तत्र भुक्त्वा सुखं नरः रुद्रलोकं समायादिभूषितं दैत्यदानवै अशीतिकल्पकालम् तु तत्र भुक्त्वा सुखं नरः तदन् देयादिगोलोकं सर्वभोगसमन्वितं सुरसिद्धाप्सरोभिश्च शोभितम् सुमनोहरं तत्र सप्ततिकल्पम् तु भुक्त्वा भोगानभीप्सितन् पश्चादायादिवैलोकम् प्राजापत्यमनुत्तमम् षष्टिकल्पम् सुखम् तत्र भुक्त्वा नाना विद्धम् मुदा तदम् देशक्रभवनम् नानाश्चर्यम् समां व्रजेद आगत्य तत्र पञ्चाशत् भुक्त्वा सुखम् नरः प्रपद्यदे मरगृहान् विमानय समलङ्कृतान् चत्वारिंशत् प्रकालम् भोगान् भुक्त्वा सुदुर्लभान् नाक्षत्रम् लोकमायादिनासौख्यसमन्वितम् तत्र भुक्त्वा वरान् भोगां त्रिंशत् कल्पम् यथेप्सितान् तस्मात् गच्छति तं शशाङ्कस्य विरिञ्जिजे यत्र तिष्ठति सोमोऽसौ सो सर्वदेवैरलं तत्र विंशतिकल्पं तु भुक्त्वा भोगं सुदुर्लभम् आदित्यस्य ततो लोकमायाधिसुरभूजितं तत्र भुक्त्वा शुभान् भोगन् दशकल्पं सुनिर्वृदः तस्मादायाधिभवनं गन्धर्वाणां सुदुर्लभम् तत्र भोगान् समस्तांश्च कल्पमेकं यथा सुखं भुक्त्वा चायादिमेदिन्यां राजा भवदि धार्मिकः चक्रवर्तीमहावीर्यो महावीर्यो सर्वैरलङ्कृतः कृत्वा राज्यं तुधर्मेण यज्ञैरिष्ट्वा स दक्षिणैः तदन्ते योगिनां लोगं गत्वा मोक्षप्रदं शिवं तत्र भुक्त्वा वरन् भोगान् यावदाभूदसम्प्लवम् तस्मात् पुनरिघा जायते योगिनां कुले प्रवरे वैष्णवे भद्रे दुर्लभे साधु सम्मधे चतुर्वेदी विप्रवरो ब्रह्मयज्ञपरः सदि वैष्णवं साध्य कैवल्यं मोक्षमाप्नुयाद एवं यात्राफलं तुभ्यं प्रोक्तं श्री पुरुषोत्तमे मुक्तिमुक्तिप्रदं नृणान् किमन्यच्छ्रोतुमिच्छसि इति श्रीभृतन्नारदीयपुराणोत्तरभागे मोहिनी वसुसंवादे पुरुषोत्तमक्षेत्रमाहात्म्ये पुरुषोत्तमक्षेत्रयात्राफलवर्णनं नामैकषष्टितमोऽध्यायः ओम